हरि श्री श्रीसीतारामचन्द्राभ्यां नमः अथ श्री अध्यात्मनामायणे सुन्दरकाण्डे चतुर्थः सर्गः श्रीमहादेव उवाच यान्तं कपीन्द्रं द्रुतपाशबन्धनं विलोकयन्तं नगरं विभितवत् ताडयन्मुच्चितालय सुगोपना पौरासमन्तादनुयान्तैक्षितुम् ब्रह्माश्रमेण क्षणमात्रसङ्गमम् कृत्वा गतं ब्रह्मवरेण सत्वरम् ज्ञात्वा हनुमानव्यगुरजुभि धृतो ययो कार्यविशेषगौरवात् सभान्तरस्थस्य च रावणस्य तम् पुरो निधाया बन्धुमया ब्रह्मवरेण वानरे समागतो ने न हता महसुरा यद्युक्तमत्रार्यविचार्य मन्त्रिभिः विधीयता मेश न लौकिकोहरी ततो विलोक्या हसुर राक्षसेश्वर प्रतमग्रे चित्तमञ्जन्नादृभम् प्रहत पृच्छे नमसोकिमागत किमत्र कार्यम् कुतैव वानर वनं सकलं विनाशितम् हता किमर्थं मम राक्षसाबलात् तहस्तो मन्दमादरत् सप्रच्छकेन प्रैतोऽसि वानर भयं च ते मास्तु विमोक्षसे मया सत्यं वद स्वाखिलराजसन्निधौ ततोति हर्षात् पवनात्मज्योरिपुम् निरीक्ष्य लोके त्रे कण्डकासुरम् वक्तुम् प्रचक्रे रघुनाथ सत्कथां क्रमेण रामम् मनसः स्मरन्मुः तृणु स्फुटं मित्रहे रामस्य दूतोऽहमिशेषरुत्थिते यस्याखिलेशस्य धूताधुना त्वया भार्यात्मनाशायशुनैव सधवि स्वराघवो भेत्य मतङ्गपर्वतम् सुग्रीव मैत्रीमनलयस्य सन्निधौ कुत्र बाणेन निहत्य वालिनम् सुग्रीवमेवाधिपतिं च करतं सर्वानराणां मधिपो महाबलि महाबले वा नरयूथ रामेण साधम् स लक्ष्मणेन भौ प्रवर्षणे मर्षयुतो तिष्ठते सञ्चोदिता तेन महाहरीश्वर धरा सुताम् मार्गयितुम् द्विजोदश तत्राहमेक पवनात्मजगपि सीताम् विचिन्वञ्चनकैतमगत दुष्टामयापन्नपलाशलोचना ीता कपित्वा विपिनं विनशितं दृष्ट्वा ततोऽहं भवता समागतान् मां हन्तु कामान् धृतजापसायकान् मया हता ते परिरक्षितं वपु प्रियो हि देहोऽखिलदेहि न प्रभो ब्रह्मस्रशापेन निबध्य मां ते समागमन् नामक पृष्ट्वैव मां ब्रह्मवर प्रभवत त्यक्त्वा गतं सर्वमवैमि रवण तथाप्यहं बद्धैवागतो हितं प्रवक्तु कार्म करुणारसाधि विचर्यलोकस्य विवेकतो गतिं न राक्षसीं बुद्धिमुपैः रवण दैवीं गतिं संस्कृतिमोक्ष हैतुकीं समाश्रयात्यन्तहिताय दे सम्भ्रह्मणो ह्युत ंशसम्भवः कौल्यस्य पुत्रोऽसि कुबेर बान्धव देहात्मबुद्ध्या अपि च पश्य राक्षसो न स्यात्मबुद्ध्या किमु राक्षसो नहि शरीरबुद्धिन्द्रियदुःख सन्तति न तेन च त्वं तव निर्विकारत अन्यर्हेतोश्च तथैव सन्तति असत्म हिदृशव इदम तो सत्यम तवनाक्रिया हेतु नतः यहा नगत न लिप्यते तथा देहगगत सुक्मक देणशरी संगत स्वात्मति बुद्धिया चिलबंध भाग भवे चिन्मात्रमेवाहमजोऽहमक्षरो यानन्दभावोऽहमिति प्रमुच्यते देहोऽप्यनात्मा पृथिवी विकारजो न प्राण आत्मानिलये च एव स मानोऽप्यहङ्कारविकार न चापि आत्माचिदानन्दयो विकारवान् देहादिसङ्घाद् व्यतिरिक्त ईश्वरे निरञ्जनो मुक्त उपाधितः सदा नैवमात्मानमितो विमुच्यते अत्रमात्यन्तिकमोक्ष साधनम् वश्य शृणुष्व वैतो महमते विष्णु हि भक्ति सुयोधनं दीय ततो भवे ज्ञानमतीव निर्मलम् विश्वतत्त्वानुभवो भवेतत् सम्यग् विधीत्वा परमम् पदम् व्रजेत् अतो भज स्वाद्य हरिम् रमपतिम् रामम् पुराणम् बृहदे परं विभुम् विसृज मूर्ख्यम् हृदि जावनाम् भजस्व रामम् चरणागत प्रियम् श्रीताम् पुरस्कृत्य स पुत्र बान्धवो रामम् नमस्कृत्य विमोच्य सेवयात् त्मानमभावयञ्जनौ भक्त्यारुधिकरूपमद्वयम् कथं परं तीरमवाप्युयजनौ भव बुधै दुःखतरङ्गमलिनय नो चेत्त्वमज्ञानमयेन वह्निना ज्वलन्तमात्मानमरक्षितारिवत् न भवत्योधये सुकृतये च पात्रकै ङ्का न च ते भविष्यति धृत्वा मृता स्वादसमानभाषितम् तद्वायुसूनोर्दन्धरसुर अन्मृश्यमाणो तिरुशाकपिश्वरम् जगाद विलोचन गयेश रामकतमो वनेच निहन्मि सुग्रीवयुतं न रथमम् पां चाद्य हत्वा निहन्मि रामं स लक्ष्मणं ततः सुग्रीवमग्रे बलिनं कपिश्वरं स वानरं हन्मचिरेण वानर श्रुत्वा दश ग्रीववच समारुति विवृध न मे स मा रावणकोटयोधम रामस्य दासुहमपार विक्रम श्रुस्वाति कोपेनो मतो दशाननो राक्षसमेव अब्रवीत् पाश्विस्थितम् मायखण्डशकपिम् पश्यन्तु सर्वे सुरमित्र बान्धव निवारयामासतो विभीषणो महासुरम् सायुधमुद्यतं वधे राजर्वधाहो न भवेत् कथञ्चरे प्रतापयुक्ते प्रराजवानर हतेस्मिन् वानरे दूते वार्तां को वा निवेदयेत् रामाय तं यमुद्दिश्य वधाय समुपस्थितः अतो वध समं किञ्चित् अन्यत् वानरे सचिह्नो गच्छतु हरिः यं दृष्टा यास्यति धृतम् रामस्तु ग्रीवसहिते ततो युद्धं भवेतव तव भीषणेव च श्रुत्वा रावणोऽप्येतदब्रवीत् वानराणां हिलाङ्गूले महामानो भवेत् किल अतोऽत्रादिभिः पुच्छं प्रयत्नतः वह्निना ध्रामयित्वा पुरेभित विसर्जयेत् पश्यन्तु सर्वे वा नरयूथपः तथेतिषणपट्टैश्च वस्त्रे अन्येन के अनेकशः तैराठवेष्टयामासु तै लाङ्गोलं मारुते दृढम् उच्छाग्रे किञ्चिदनलम् दीपयित्वाथ राक्षसाः रज्जुभिः सुदृढम् बद्ध्वुत्वा तं बलिनोऽसुरः समन्ताद् भ्रामयामासु चोरोऽयमिति वादिनः तुर्यघोषेर्घोषयन्त ताडयन्तो मुहुमु हनुमतापि तत्सर्वम् सोढुम् किञ्चित् चिकीषुणा गत्वा तु पश्चिमद्वारे समीपम् तत्र मारुतिः तूष्मो बभूव बन्धेभ्यो निःसृदय पुनरप्यसौ बभूव पर्वताकर तत उत्प्लोत्य गोपुरम् तत्रैकं स्तम्भमादाय हत्वा तान् दक्षिणक्षणात् विचार्य कार्य चे प्रासादागराद् गृहाद् गृहम् उत्प्लोप्य प्रत्यसंदिप्त पुच्छे न महता कपिः ददाहेरङ्कामखिलाम् षट्टप्रासादतोरणम् आतातपुत्र नाथेति क्रन्दमाना समन्ततः व्याप्ता प्रासाद शिखरे कप्यारूढादृत्य योषितः देवता इव दृश्यन्ते पतन्त्य पावकेऽखिलः विभीषण गृहं त्यक्त्वा सर्वं भस्मि कृतम् तत उत्प्लुत्य जलधौ हनुमान् मारुतात्मजहे लङ्लम् मज्जित्वा चित्तो बभूवसहे वायो प्रिय सकित्वा चेत् सीतया प्रार्थितो नलहे न ददाह हरे पुच्छम् बभूवात्यन्त शीतलः यन्नाम संस्मरणदूत समस्त पाप तत्त्वत्रयानलमपीयतरन्ति सद्य तस्यैव किं रघुवरस्य विशिष्ट दूत सन्तप्यते कतमसोप्रकृतानलेन इति श्रीमदध्यात्मरामायणे उमामैससंवादे सुन्दरकाण्डे चतुर्थः सर्गे श्रीसीतारामचन्द्रार्पणमस्तु